अथ त्रिंशः सर्गः गृहम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः पाण्डुरम् गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् शारदीम् रजनीम् चैवम् दृष्ट्वा ज्योत्स्नानुलेपनाम् च सुग्रीवम् नष्टाम् च जनकात्मजाम् दृष्ट्वा कालमतीतम् च मुमोह परमातुरः स तु सञ्ज्ञामुपागम्य मुहूर्तान्मतिमान्वः मनस्थामपि वैदेहीम् चिन्तयामास राघवः दृष्ट्वा च विमलम् व्योमगतविद्युद्बलाहकम् सारसारावसङ्घुष्टम् विललापार्तया गिरा आसीनः पर्वतस्याग्रे शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रिया सारसारावसन्नादैः सारसारावनादिनी या श्रमे रमते बाला साध्यमे रमते कथम् पुष्पिताम् शासनान् दृष्ट्वा काञ्चनानिव निर्मलान् कथम् सा रमते बाला पश्यन्ती माम् अपश्यति या पुरा कलहंसानाम् कलेन कलभाषिणी बुध्यते चारु सर्वाङ्गीसाध्यमे रमते कथम् निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् पुण्डरीकविशालाक्षी कथमेषा भविष्यति सरांसि सरितो वापी काननानि वनानि च ताम् विना मृगशावाक्षीम् चरन्नाद्य सुखम् लभे अपि ताम् मद्वियोगाच्च सौकुमार्याच्च भामिनी सुदूरम् पीडयेत् कामः शरद्गुणनिरन्तरः एवमादिनरः श्रेष्ठो विललापनृपात्मजः विहङ्ग इव सारङ्गः सलिलम् त्रिदशेश्वरात् ततश्चूर्य रम्येषु फलार्थी गिरिसानुषु ददर्श पर्युपावृत्त लक्ष्मीभाल्लक्ष्मणोऽग्रजम् स भ्रातुर्विषादारितोऽति दीनः समीक्ष्य सौमित्रिरुवाच दीनम् किमार्य कामस्य वशम् गतेन किमात्मपौरुष्य पराभवेन अयम् क्रिया संह्रियते समाधिः किमत्र योगेन निवर्ततेन क्रियाभियोगम् मनसः प्रसादम् समाधियोगानुगतम् च कालम् न जानकी मानववंशनाथ त्वया स नाथा सुलभापरेण न ना चाग्निचूडाञ्ज्वलितामुपेत्य न दह्यते वीरवरार्ह कश्चित् सलक्षणम् लक्ष्मणमप्रधृष्यम् स्वभावजम् वाक्यमुवाचरामः हितम् च पथ्यञ्च नय प्रसक्तम् ससामधर्मार्थ समाहितम् निःसंशयम् कार्यमवेक्षितव्यम् क्रियाविशेषोऽप्यनुवर्तितव्यः न तु प्रवृद्धस्य दुरासदस्य कुमारवीर्यस्य फलम् चिन्त्यम् अथ उवाच लक्ष्मणम् रामो मुखेन परिशुष्यत तर्पयित्वा सहस्राक्षः निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः दीर्घगम्भीर निर्घोषाः शैलद्रुमपुरोगमाः विसृज्य सलिलम् मेघाः परिशान्तानुवात्मजा नीलोत्पलदलश्यामा श्यामीकृत्वा दिशो दशा विमदा इव मातङ्गाः शान्तवेगाः पयोधराः जलगर्भामहावेगाः कुटजार्जुनगन्धिनः चरित्वा विरताः सौम्यवृष्टिवाताः समुद्यताः घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मणा नादः प्रस्रवणानाम् च प्रशान्तः सहसानघा अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः अनुलिप्ता इवा भान्ति गिरयश्चन्द्ररश्मिभिः शाखासु सप्तच्छदपादपानाम् लीला चैवोत्तम वारणानाम् श्रियम् विभज्याद्य शरत् प्रवृत्ता सम्प्रत्यनेकाश्रय चित्रशोभा लक्ष्मीः शरत्काल गुणोपपन्ना सूर्याग्रहस्त प्रतिबोधितेषु पद्माकरेष्वव्यधिकम् विभाति सप्तच्छदानाम् कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः मत्तद्विपानाम् पवनानुसारी दर्पम् विलेष्यन्नकम् विभाति अभ्यागतैश्चारु विशाल पक्षैः पद्मरजोवकीर्णैः महानदीनाम् पुलिलोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः मदप्रगल्भेषु च वारणेषु प्रसन्नतो यासु च निम्न गासु विभाज लक्ष्मीर्बहुधा विभक्ता नरः समीक्ष्याम्बुधरैर्विमुक्तम् विमुक्त बर्हाभरणा वनेषु प्रिया स्व रक्ता विनिवृत्त परामयूरा मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पाति सुवर्ण गौरैर्नयनाभिरामैरुद्योतितानीव वनान्तराणि प्रियान्वितानाम् नलिनी प्रियाणाम् वने प्रियाणाम् कुसुमोद्गतानाम् मदोत्कटानाम् मदलालसानाम् गजोत्तमानाम् गतयोद्य मन्दाः व्यक्तम् नभः शस्त्रविधौ तवर्णम् कृशप्रवाहानि नदी जलानि कह्ला रशीताः पवनाः प्रभान्ति तमो विमुक्ताश्च दिशः नष्टपङ्का भूमिश्चिरोद्घाटित अन्योन्यवैरेण समायुतानामुद्योग कालोऽद्य नराधिपानाम् मदोत्कटाः सम्प्रति युद्धलुब्धा वृषागवाम् मध्यगता न दन्ती समन्मथा तीव्रतरानुरागाकुलान्विता मन्दगतिः करेणुः मदान्वितम् सम्परिवार्ययान्तम् वनेषु भर्तार मनुप्रयाति त्यक्त्वा वराण्यात्मविभूषितानि निर्भत्स्यमाना इव सारसौघैः प्रयान्ति दीना विमला मयूरा वित्रास्य कारण्डव चक्रवाकान् महानवैर्भिन्न कटा गजेन्द्राः सरस्व बद्धाम्बुज भूषणेषु विक्षोभ्य विक्षोभ्य जलम् पिबन्ति व्यपेतपङ्कासु स वालुकासु प्रसन्नतो ससार सारावविनादिता सु नदीषु हंसा निपतन्ति हृष्टाः नदीगणप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् प्लवङ्गमानाम् च गतोत्सवानाम् ध्रुवम् रवाः सम्प्रति सम्प्रनष्टाः अनेकवर्णास्तु विनष्टका या ुशार्दिता घोर विशा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः चञ्चच्चन्द्रकरस्पर्श हर्षोन्मीलित तारका अहो रागवती सन्ध्या जहाति स्वयमम्बरम् रात्रिः शशाङ्कोदित सौम्यभक्त्रा तारागणोन्मीलित चारु नेत्रा विपक्वशालि प्रसवानि भुक्त्वा प्रहर्षिता सारस चारु पङ्क्तिः नभः समाक्रामदि शीघ्रवे गा वा माला सुप्तैकहंसम् कुमुदैरुपेतम् महाह्रदस्थम् सलिलम् विभाति घनैर्विमुक्तम् निशिपूर्ण चन्द्रम् तारा प्रकीर्ण हंसा कुल मेखलानाम् प्रबुद्ध पद्मोत्पलमालिनीनाम् वाप्युत्तमानामधिकार्य नवैर्नदीनाम् कुसुमप्रहासैर्व्याधूयमानैर्मृदु मा मारुतेन मृदुमारुतेना प्रकाशैः कूलानि काशैरुपशोभितानि वन प्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः वनेषु मत्ताः पवनानुयात्राम् कुर्वन्ति पद्मासनरेणु जलं प्रसन्नम् कुसुम प्रहासम् क्रौञ्चस्वनम् शालिवनम् विपक्वम् मृदुश्च वायुर्विमलश्च चन्द्रश्यम् सन्ति वर्ष व्यपनीत कालम् मीनोपसन्दर्शित मेखलानाम् नदी वधूनाम् गत यो स चक्रवाकानि स शैवलानि काशैर्दुकूलैरिव संवृतानि सपत्र रेखाणि सरोचनानि वधूमुखानीव नदीमुखानि निकूजितेषु गृहीत चापोद्यत दण्ड चण्डः प्रचण्ड चापोद्य च पूरयित्वा निष्पन्न सस्याम् वसुधाम् च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः दर्शयन्ति शरन्नद्यः कुलिनानि शनैः शनैः नवसङ्गमसव्रीडा जघनानीव योषितः प्रसन्नसलिलाः सौम्यकुरराभिविनादिताः चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः अन्योन्यबद्धवैराणाम् जिगीषूणाम् नृपात्मजा उद्योगसमयः सौम्यपार्थिवानामुपस्थितः इयम् सा प्रथमा यात्रा पार्थिवाना नृपात्मजा न च पश्यामि सुग्रीवमुद्योगम् च तथाविधम् असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु हंससारसचक्राह्वैः सा कुररैश्च समन्ततः पुलिनान्यवकीर्णानि नदीनाम् पश्य लक्ष्मण चत्वारो वार्षिकामासा गता वर्षशतोपमाः मम शोकाभितप्तस्य तथा सीतामपश्यतः चक्रवाकीव भर्तारम् पृष्ठतो अनुगतावनम् विषमम् दण्डकारण्यमुद्यानमिव चाङ्गना प्रियाविहीने कृपाम् न कुरुते राजा सुग्रीवो मयि लक्ष्मण अनाथो हृतराज्योऽहम् रावणेन च धर्शितः दीनो दूरगृहः कामीमाम् चैव शरणम् गतः इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः अहम् वानरराजस्य परिभूतः परम् सकालम् परिसङ्ख्याय सीतायाः परिमार्गणे कृतार्थः समयम् कृत्वा दुर्मतिर्नावबुध्यते सखिष्किन्धाम् प्रविश्य सक्तम् सुग्रीवम् वचनान् अर्थिनामुपपन्नानाम् पूर्वम् चाप्युपकारिणाम् आशाम् संश्रुत्य यो सत्येन परिगृह्णाति सवीरः पुरुषोत्तमः कृतार्था ह्यकृतार्थानाम् मित्राणाम् न भवन्ति पिक्रव्यादा तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते नूनम् पृष्ठस्य विकृष्टस्य मया रणे द्रष्टुमिच्छसि चापस्य रूपम् विद्युद्गणोपमम् घोरम् ज्यातलनिर्घोषम् क्रुद्धस्य मम निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि काममेवम् गतेऽप्यस्य परिज्ञाते पराक्रमे त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मजा यदर्थमयमारम्भः कृतः परपुरञ्जय नाभिजानाति कृतार्थः प्लवगेश्वरः प्रतिज्ञाय हरीश्वरः यतीतांश्चतुरोमासान्विहरन्नावबुध्यते सामात्यपरिषत्क्रीडन् पानमेवोपसेवते शोकदीनेषु नास्मासु सुग्रीवः कुरुते दया उच्यताम् गच्छ सुग्रीवस्त्वया वीरमहाबला मम रोषस्य यद्रूपम् वचः न समये तिष्ठ सुग्रीवमावालिपथमम् वगाः एक वाली शरेण निहतो मया त्वाम् तु सत्यादतिक्रान्तम् हनिष्यामि स यदेवं विहिते कार्ये यद्धितं पुरुषर्षभा तत्तद्ब्रूहिनरश्रेष्ठत्वरकालव्यतिक्रमः तत् पुरुष्व सत्यम् मम वानरेश्वरप्रतिश्रुतम् धर्ममवेक्ष्य शाश्वतम् मा वालिनम् प्रेत गतोऽयमक्षये त्वमद्य पश्येर्मम चोदितः शरैः स पूर्वजम् तीव्र विवृद्ध मानववंशवर्धनः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्यन्धाकाण्डे त्रिंशः सर्गः